अथ त्रिसप्ततितमः सर्गः यस्मिंस्तु दिवसे राजा चक्रे गोदानमुत्तमम् तस्मिंस्तु दिवसे वीरो युधाजित्समुपेयिवान् पुत्रः केकय राजस्य साक्षात् भरतमातुलः दृष्ट्वा पृष्ट्वा च कुशलम् राजानमिदमब्रवीत् केकयाधिपती राजा, के राजा स्नेहात् कुशलमब्रवीत् येषाम् कुशलकामोऽसि तेषाम् सम्प्रत्यनामयम् स्वश्रीयम् मम राजेन्द्रद्रष्टुकामो महीपतिः तदर्थमुपयातोऽहमयोध्याम् रघुनन्दन श्रुत्वा त्वहमयोध्यायाम् विवाहार्थम् तवात्मजान् मिथिलामुपयाताम् स्तुत्वया सह महीपते त्वरयाभ्युपयातोऽहम् द्रष्टुकामस्व सुसुसुतम् अथ राजा दशरथः प्रियातिथिमुपस्थितम् दृष्ट्वा परमसत्कारैः पूजनार्हमपूजयत् ततस्तामुषितो रात्रिम् सह पुत्रैर्महात्मभिः प्रभाते पुनरुत्थाय कृत्वा कर्माणि तत्त्ववित् पुरस्कत्य पुरस्कृत्य यज्ञवाटमुपागमत् युक्ते मुहूर्ते विजये सर्वाभरणभूषितैः भ्रातृभिः सहितो रामः कृतकौतुकमङ्गलः वसिष्ठम् पुरतः कृत्वा महर्षी परानपि वसिष्ठो भगवानेत्य वैदेहमिदमब्रवीत् राजा दशरथो राजम् कृतकौतुकमङ्गलैः पुत्रैर्नरवरः श्रेष्ठो दातारमभिकाङ्क्षते दातृप्रतिग्रहीतृभ्याम् सर्वार्थाः सम्भवन्ति स्वधर्मं स्वधर्मम् प्रतिपद्यस्व कृत्वा इत्युक्तः परमोदारो वसिष्ठेन प्रत्युवाचमहातेजावाक्यम् परमधर्मवित् कथितः प्रतिहारो मे कस्याज्ञाम् सम्प्रतीक्षते स्वगृहे को विचारोऽस्ति यथा राज्यमिदम् तव कृतकौतुकसर्वस्वा वेदिमूलमुपागताः मम कन्यामुनिः श्रेष्ठदीप्ता वह्नेरिवार्चिषः सद्योऽहम् त्वत्प्रतीक्षोऽस्मि वेद्यामस्याम् प्रतिष्ठितः अविघ्नम् क्रियताम् सर्वम् किमर्थम् हि विलम्ब्यते तद्वाक्यम् जनकेनोक्तम् श्रुत्वा दशरथस्तदा प्रवेशयामाससुतान् सर्वान् ऋषिगणानपि ततो राजा विदेहानाम् वसिष्ठमिदमब्रवीत् कारयस्पर्शे सर्वा ऋषिभिः सह धार्मिक रामस्य लोक रामस्य क्रियाम् प्रभो तथेत्युक्त्वा तु जनकम् वसिष्ठो भगवा विश्वामित्रम् <Glering> पुरस्कृत्य शतानन्दम् च धार्मिकम् प्रभामध्ये तु विधिवद्वेदिम् कृत्वा महातपाः अलम् चकारताम् गन्धपुष्पैः समन्ततः सुवर्णपालिकाभिश्च चित्रकुम्भैश्च साङ्कुरैः अङ्कुराढ्यैश्चरावैश्च धूपपात्रैः स धूपकैः शङ्खपात्रैःस्रुवैःस्रग्भिः पात्रैरर्घ्याधिपूजितैः लाजपूर्णैश्च पात्रैभिरक्षतैरपि संस्कृतैः दर्भैः समैः समास्तीर्य विधिवन्मन्त्रपूर्वकम् अग्निमाधायतम् वेद्याम् विधिमन्त्रपुरस्कृतम् महातेजा महातेजावसिष्ठो मुनिपुङ्गवः ततः सीताम् सर्वाभरणभूषिता समक्षमग्नेः संस्थाप्य राघवाभिमुखे तदा अब्रवीज्जनको राजा कौसल्यानन्दवर्धनम् इयम् सीता ममसुता सह धर्मचरी तव प्रतीच्छचैनाम् भद्रम् ते पतिव्रता महाभागा छायेवानुगता सदा इत्युक्त्वा प्राक्षिपद्राजा मंत्रपूतं जलम् तदा साधु साध्विति देवानामृषीणाम् वदताम् तदा देदुंदुर्घोष पुष्पर्शो महान भूत सीता मंद्रोदुस्कृता अब्रवीजनको राज हर्षेण भी प्लुता लक्ष्मग छद्रं ते ऊर्मी मुद्यता मैया प्रतीक्षाणी गृही शूत काल तमे मुक्त जनको भरत चाभ्यषत ग्रहाणपाणिम् माण्डव्याः पाणिना रघुनन्दना शत्रुघ्नम् चापि धर्मात्मा अब्रवीन्मिथिलेश्वरः श्रुतकीर्तेर्महाबाहो पाणिम् गृह्णीष्व पाणिना सर्वे भवन्तः सौम्याश्च सर्वे सुचरितव्रताः पत्नीभिः सन्तु काकुत्स्था मा पर्ययः जनकस्य वचः श्रुत्वा पाणीन् पानि चत्वारस्ते चतसॄणाम् वसिष्ठस्य मते स्थिताः अग्न्यम् प्रदक्षिणम् कृत्वा वेदिम् राजानमेव च ऋषींश्चापि महात्मानः सह भार्या रघूद्वहाः यथोक्तेन ततश्चक्रुर्विवाहम् विधिपूर्वकम् पुष्पवृष्टिर्महत्यासीदन्तरिक्षात् शुभास्वरा दिव्यदुन्दुभि निर्घोषैर्गीतवादित्रणिस्वनैः न नृतुश्चाप्सरः सङ्घा गन्धर्वाश्च जगुः कलम् विवाहे रघुमुख्यानाम् तदद्भुतमदृश्यत ईदृशे वर्तमाने तु तो तूर्योध्वनिनादिते त्रिरज्ञन्ते परिक्रम्य ऊहुर्भार्या महौजसः अथोपकार्यम् जग्मुस्ते स भार्या रघुनन्दनाः राजाप्यनुययो पश्यन् सर्षि इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिसप्ततितमः